कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा कच्चिन्नलोभान्मोहाद्वा मानाद्वापि विशाम्पते अर्थित्प्रत्यर्थिनः प्राप्तान्न पश्यसि कथञ्चन कच्चिन्नलोभान्मोहाद् वा विश्रम्भात् आश्रितानां मनुष्याणां वृत्तिं त्वं संवृणत्सि कच्चित् पौराणसहिता ये च ते राष्ट्रवासिनः विरुध्यन्ते परैः क्रीताः कथञ्चन कश्चिन्न दुर्बलः शत्रुर्बलेन परिपीडितः मन्त्रेण बलवान् कश्चिदुभाभ्याम् च कथञ्चन कच्चित् सर्वेऽनुरक्तास्त्वाम् भूमिपालाः प्रधानतः कच्चित् प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया दृताः कच्चित्ते सर्वविद्यासु गुणतोर्चा प्रवर्तते ब्राह्मणानाम् च साधूनां तव नैः शुभा दक्षिणास्त्वम् ददास्येषाम् नित्यम् स्वर्गापवर्गदाः कच्चिद्धर्मे त्रयी मूले पूर्वैराचरिते जनैः यतमानस्तथा कर्तुम् तस्मिन् कर्मणि वर्तसे कच्चित्तव गृहेन्नानि स्वादू न्यश्नन्ति वैतृजाः गुणवन्ति गुणोपेतास्तवाध्यक्षम् स दक्षिणम् कच्चित् क्रतूने कचित्तो वाजपेयांश्च सर्वशः पुण्डरीकांश्च कास्येन यतसे कर्तुमात्मान् कच्चिज्ञातीन् गुरून् वृद्धान् दैवतां स्तापसानपि चैत्यांश्च वृक्षान् कल्याणान् ब्राह्मणांश्च नमस्यसि कच्चिच्छोको न मन्युर्वा त्वया प्रोत्पाद्यते न घ कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेन खा आयुष्या च यशस्या एतया वर्तमानस्य बुद्ध्या राष्ट्रम् न सीदति विजित्य च महीं राजा सोऽत्यन्तसुखमेधते कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि अदृष्टशास्त्रकुशलैर्न दुष्टो गृहीतस्तकारी तज्ञैर्दृष्टः स कारणः कच्चिन्नमुच्यते स्तेनो द्रव्यलोभान्नर्षभा उत्पन्नान् कच्चिदाढ्यस्य दरिद्रस्य च भारत अर्थान्न मिथ्या पश्यन्ती तवामात्याहृता जनैः नास्त्यमनृतम् क्रोधम् प्रमादम् दीर्घसूत्रताम् अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् निश्चितानामनारम्भम् मन्त्रस्यापरिरक्षणं मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः व्यक्तित्वं वर्जयस्येतान् राजदोषांश्चतुर्दशा प्रायशो यैर्विनश्यन्ति कृतमूलापि पार्थिवाः कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनं कच्चित्ते सफलादाराः कच्चित्ते सफलं श्रुतम् युधिष्ठिर कथं वै सफला वेदाः कथं वै सफलं धनं कथं वै सफलादाराः कथं वै सफलं श्रुतं नारदवाचा अग्निहोत्रफलावेदा दत्तभुक्तफलं धनं प्रतिपुत्रफलादाराः शीलवृत्तफलं श्रुतम् वैशंपायनवाचा एतदाख्याय स मुनिर्नारदो वै महातपाः पप्रच्छानन्तरमिदम् धर्मात्मानं युधिष्ठिरम् नारद उवाच कच्चिदभ्यागता दूराद् वणिजो लाभकारणात् यथोक्तमवहार्यन्ते शुल्कम् शुल्कोपजीविभिः पुरे राष्ट्रे च मानिताः उपानयन्ति पण्यानि उपदाभिरवञ्चिताः कच्चिच्छृणोषि वृद्धानाम् सहिता गिरः नित्यमर्थविदाम् ताता यथा धर्मार्थदर्शिनाम् कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च धर्मार्थम् च द्विजातिभ्यो दीयेते मधु सर्पिषी द्रव्योपकरणम् किञ्चित् सर्वदा सर्वशिल्पिनाम् चातुर्मास्यावरम् सम्यग्यतम् सम्प्रयच्छसि कच्चित् कृतम् विजानीषे कर्तारम् च प्रशंससि सताम् मध्ये महाराजा सत्करोषि च पूजयन् कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो अभ्यस्यते सम्यग् गृहेते भरतर्षभ धनुर्वेदस्य सूत्रम् वय यन्त्रसूत्रम् च नागरम् कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेन घ विषयोगास्तथा सर्वे विदिताः शत्रुनाशनाः कच्चिदग्निभयाच्चैवोभयाच्च राष्ट्रम् स्वम् परिरक्षसि कच्चिदन्धांश्च मूकांश्च पङ्गून् व्यङ्गानान्धवान् पिते वपासि धर्मज्ञा तथा प्रव्रजितानपि